गणेशपुराणं क्रीडाखण्डम् अध्यायम् 81. वन् क उवाच ततः सा पार्वतीहृष्ठा सखीजनमगान्निजं वृत्तान्तं सर्वमाचख्यौ हृष्टरूपोऽपि सोऽभवत् तत्प्रभृदि सा देवी पश्यति स्मान्यबालं सा गुणेशोऽयं भवेदिति गृहीतुम् धावति तदा तन्मात्रा सा निषिध्यते न क्वापि गुणेशध्यानतत्परा तन्नाम नित्यं तन्मयं लोकदे जगद पप्र च सखी सर्वा गुणेशो यास्यते कदा पित्रामेकधिदं पूर्वं व्रतमीशाप्तये शुभं पार्थिवस्य गणेशस्य पूजनं च यथाविधि तेन व्रतप्रभावेण प्राप्तास्मि शङ्करं प्रियम् पुनस्तदाचरिष्यामि चरिष्यामि गुणेश प्राप्तयेधुना तदो भाद्रचदुर्ध्यां सा कृत्वा मूर्तिं मुदान्विता उपचारयिषोडशभिः पूज्य च गजाननीं पञ्चामृदर्वस्त्रैरनेकशखयज्ञोपविधगन्धैश्च धूपदीपैर्यथाविधि नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि ताम्बूलैरार्द्रभोगैश्च लवङ्गादिसमन्वितैः दूर्वाभिश्च समीपत्रैर्दक्षिणाभिरनेकशः आरार्तिक्यविचित्रैश्च मन्द्रपुष्पैस्तवैरपि प्रदक्षिणाप्रार्थनाभिर्ब्राह्मणानां च पूजनैः परितुष्टा मूर्तिरसौ पार्थिवी चेदनामगा प्रभया तैकोसूर्य प्रभाजिता कलपानलार्चिर्जिदानंदचंद्र प्रभा, प्रभा नेत्र प्रभा गौरी मूर्छिदीदा भुवि मुहूर्ता सवधान सा प्रवाच जगद मैंक देवूजन न तर्क अभीचारोधवाक प्रयुक्त नेत्म कदम मे विफल यत्न जापानिधे क उवाच श्रुत्वेद्धं वचनं तस्याः सौम्यतेजा अभूत् प्रभुः सा तदैव भवद्धृष्टा बालं वीक्ष्य पुरोगतम् असङ्ख्यवक्त्रनयनमसङ्ख्याङ्घृशिरोधरम् असंख्यमुकुडं सूर्यचन्द्राग्निलोचनं विभुं मुक्तामणिमयीं मालां बिभ्रन्दं दीप्तिमत्परम् अनेकायुधहस्तं च सर्वावयवसुन्दरं दृष्ट्वादुपार्वतीरूपं पवित्रं परमाद्भुतम् अदर्कयच्चेदसा सा निमील्यनयने शुभे कम्भमानाङ्गा यष्टिसा कर्तव्यं नाभ्यपद्यद चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु तावच्छिवोपदिष्टं तदवेदी च जगाद च पार्वत्युवाच अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुं पप्रच्छतं तदकस्त्वं कुदा आगमनं तव किमर्च त्वं गुणेशच्चेद्भविता शिवदस्व मां यदि तद्वचनं श्रुत्वा वदत् स महान् स्वनेन नादयन् सर्वा दिशो विदिश एव च देव उवाच यं ध्यायसि दिवारा वनुष्ठानवधीशुभे सोऽहं गुणेशस्ते गेहेऽवतीर्नः परमः परात्परतरो यस्मादवदं त्वा वरार्धिनीं यास्यते देवी देवि यत्कृत्यं मे शृणुष्व उभयो सेवनं कार्यं सिन्धुदैत्यविनाशनम् अमराणां पदप्रादिं कृत्वा यास्ये निजं पदं क पीत्वा वाक्या मृदं तस्य प्रीदा सा गिरिजात्मजा उवाचेख परं भाग्यं परमं मे तपः फलं नायकोनन्दकोटीनां ब्रह्माण्डानां विभुर्मया दृष्टश्चिदानन्दखनो यस्मात्सृष्टमनेकशः पञ्चभूतानि ब्रह्मेश हरिश्चन्द्रेन्द्रभास्कराः नक्षत्राणि जगन्धर्वा यक्षा मुनिगणा द्रुमाः शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश स्थावरं जङ्गमं यस्मात् सचेतनमचेतनम् सत्त्वं मम कुमारत्वं प्राप्तोऽसीदिविडम्बनम् अध अधत्वां प्रार्थये देव भवसांप्रदं भव साम्प्रदं येन लालनं गुर्यां सेवनं परमादराध क उवाच यावद्वदति तु ददर्श षड्भुजं चन्द्रसुभगं लोजनत्रयभूषितं सुनाशुभ्रुवदनं स्थूलवक्षसमीश्वरं ध्वजाङ्गुष्योर्ध्वरेखाब्जचिह्निदं पादपङ्गजं कोडिस्फटिकसङ्काशं कोडिचन्द्रप्रभं विभुम् हेमताराणि भान् केशान्तधन्तं बालरूपिणं कुर्वन्तं प्रथमं शब्दं कम्बयन्तं वसुन्धरां जनास्थानानि मर्यादां तत्यजुस्तस्य शब्ददः नीरसवृक्षनि च या स पल्लवचयास्तदा जादा बहुक्षीरास्त्रैलोक्यम् जहृषे पुनः देवदुन्दुभयो नेदुः पुष्पवृष्टिरधापतद दृष्ट्वा बालम् तु गिरिजाहस्ताभ्यां जगृहे मुदा स्नापयामासपयसतप्तेन स्नेहभावतः प्रश्नुतौ प्राययामासस्थनौ परमहर्षिता शिवोऽपि जहृषे तेन शिशुना परमेणः इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशाविर्भावो नामयि काशीदितमोऽध्यायः ओम्